मम सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतं वयं जानीमः योगः इति विषयः बहु व्यवहारिकः विषयः अस्ति वेरि प्राक्टिकल् योग इस् वेरि प्राक्टिकल् सैन्स् व्यवहारिकविज्ञानम् अस्ति अत्र सामान्यतया यत्किमपि दर्शनं भवतु दर्शनशास्त्रं भवतु तत्र सर्वदा सिद्धान्तस्य विषये चर्चा अधिका भवति तस् तस्मिन् दर्शने किं किम् अस्ति दर्शनस्य सिद्धान्तः कः इत्यस्य विषये बहु बहु चर्चा भवति परन्तु अत्र योग योगदर्शनम् इत्यत्र तु व्यवहारिकविज्ञानम् अधिकमस्ति नैण्टि नैन् 99% प्राक्टिस् 1% पर्सेण्ट् तियरि अण्ड् 1% वन् पर्सेण्ट् तियरि इस् आल्सो फोर् प्राक्टिस् तत्र वन् सिद्धान्तः यद्वयं पठामः तदपि व्यवहारे कथं तस्य आनयनम् इत्यस्य विषये एव चिन्तनम् अतः यत्किमपि वयं कुर्मः तस्य व्यवहारे कथम् आनयनम् इत्येव तस् तस्मिन्नेव प्राधान्यं वर्तते अन्य अन्यदर्शनशास्त्रेषु किं भवति इति चेत् बहु किमपि उच्यते परन्तु एवमेवं एवमेव भवेत् इत्युक्ते सर्वत्र समत्वं पश्येत् अथवा तत्र मनसि द्वन्द्वः न भवेत् अथवा अनन्तेषणा भवेत् अथवा यत्किमपि तत्र उच्यते परन्तु तस्य जीवने आनयनं कथम् इत्यस्य विचारः न भवति अन्येषु दर्शनेषु परन्तु अत्र योगदर्शने किम् अस्ति इति चेत् यत्किमपि अस्माभिः उच्यते तस्य जीवने कथम् आनयनं इति एव सर्वदा अस्माकं चिन्तनं भवति अपि तस्य व्यवहाररूपेण वयम आ आनयामः अपि अतः यत्किमपि एवमेव न वदामः अत्र वर्गे किमपि उक्त्वा अनन्तरं तस्य विषये चिन्तनं नास्ति इति न अतः अस्माकं जीवनं यद्वयं वदामः तदनुगुणमेव भवति अतः किमपि वयं वदामः व्यवहारः अन्यरीत्या भवति इति कदापि न भवति इति अत्र वैशिष्ट्यम् अस्ति योग योगविषये वैशिष्ट्यं किम् इति चेत् यत्किमपि वयं वदामः तस्य व्यवहारे आनयनं यदि वयं न आनयामः चेत् तस्मिन् अस्माभिः विचारणीयं किमर्थं तस्य व्यवहारे आनयनं नास्ति इदानीं तत्र सात्विक आहारः इति केवलं सम्भाषणं नास्ति तस्य जीवने आनयनं यदि देर् एस् देर्स् अस् मिस् मेच् बिट्वीन् वाट् वि स्पीक् एण्ड् वाट् then we need to definitely review it one more time there should be a synchronicity between what we speak and what we do right there should not be any gap so the the speech and your action should go hand in hand yetadrisha vicharaha atra yoga darshane svayam sarvada asma vih kriyate na kevalam a sambhashanam eva nasti kevalam bhashanam ekatra gatvaya janaha tatra santi tatra gatva केवलं सम्भाषणम् इति नास्ति यद्वयं वदामः तस्य आचरे आचरणे अथवा व्यवहारे आनयनम् इति अत्र केवलम् उच्चविचाराणां भाषणम् एव इति नास्ति परन्तु व्यवहारे आनयनम् इति अत्र बहु विशेषः वर्तते एव योगः नैण्टि नैन् पर्सेण्ट् अभ्यासः 1% पर्सेण्ट् सिद्धान्तः इति वयं वदामः तद् 1% पर्सेण्ट् सिद्धान्तः अपि अस्माकं जीवने पूर्णतया अस्माभिः प्रयुज्यते यद्वयं वदामः तस्यापि व्यवहारे आनयनम् अस्ति अतः केवलं किमपि केवलं बौद्धिकरूपेण किमपि न नास्ति केवलम् अवगच्छामः तत् पर्याप्तम् इति नास्ति अवगमनं तदनन्तरं व्यवहारे आनयनम् अवगमनम् आनयनम् अवगमनम् आनयनम् इति एवं रीत्या एव सर्वदा भवति अत्र इति अत्र विशेषः अतः अन्यत्र यदा वयं वदामः एवम् एवं करणीयम् एवमेवं करणीयम् इति ते वदन्ति परन्तु व्यवहारे कथम् आनयनम् इत्यस्मिन् विषये न न क्रियते परन्तु अत्र योगसिद्धान्ते जीवने कथं तस्य आनयनम् अस्माकं प्रत्येकं श्वासे तादृशसिद्धान्तस्य आनयनं कथम् इत्यस्य इत्यस्य विषये एव अस्माकं सम्पूर्णजीवनं गच्छति इत्युक्ते वदामः तस्य आनयनं जीवने तत्र सुलभं नास्ति यद्वयं वदामः तस्य जीवने आनयनम् अत्र अस्माकं सङ्घर्षः अस्ति तत्र सङ्घर्षेण एव वयं तत् कर्तुं शक्नुमः अतः अस्माकं सम्पूर्णजीवनं टु uh, to बिकम् पर्फेक्ट् टु गो टुवर्ड्स् पर्फ़ेक्षन् परमपुरुषः पर्फेक्ट् अस्ति खलु सम्पूर्णः अस्ति पूर्णः अस्ति परमपुरुषः यदि तं प्रति अस्माभिः गन्तव्यं तदानीम् अस्माभिः अपि पूर्णः अस्माभिः अपि पूर्णः पूर्णतां यदा वयं प्राप्नुमः तदानीमेव वयं वयं ब्रह्म तद् भवितुम् अर्ह भवितुमर्हामः ब्रह्म भवितुं तदानीमेव अर्हामः ओन्लि वेन् दि इञ्च् टु वर्ड्स् पर्फेक्षन् दि गो टु वर्ड्स् पर्फेक्षन् देन् दि केन् बिकम् ब्रह्म तदर्थं यद् वयं वदामः तस्य आनयनं भवति सो द एण्टैयर् लैफ़् वि स्पेण्ड् ट्रैङ्ग् टु पर्फेक्ट् अवर् लैफ़् ट्रैङ्ग् टु बिकम् दट् पूर्ण वस्तु तर्हि इति तत्र योगदर्शने वैशिष्ट्यं वर्तते योगे यदा वयं परमपुरुषः चैतन्यम् इत्येवं रीत्या वयं वदामः तदानीं तत्र परमपुरुषः परमपुरुषः परमात्मा इत्यस्य विषये चिन्तनमस्ति परमपुरुषः हीस् लैक् अग्नेट् सर्वदा अस्माकम् आकर्षणं भवति परमा परमात्मानं प्रति अस्माकम् आकर्षणं भवति गहनः गहनम् आकर्षणं भवति आध्यात्मिक आकर्षणं भवति तर्हि साधकस्य परमपुरुषं प्रति प्रेमभावः भवेत् प्रेमभावः अस्माभिः वर्धनीयः परमा परमात्मानं प्रति प्रेमभावः अस्माभिः वर्धनीयः यत्किमपि कार्यं वयं कुर्मः जीवने परमपुरुषस्य प्रीत्यर्थमेव वयं कुर्मः तदेव सः साधकः यः स्वस्य जीवनं तथा तादृशरूपेण आयोजयति येन सः परमपुरुषः स्वस्य कार्येण परमपुरुषः तृप्तः भवेत् सः प्रसन्नः भवेत् इत्येव अस्माकं लक्ष्यमस्ति तर्हि ये यत्किमपि निर्णयः भवतु अथवा यत्किमपि कार्यं भवतु तत्सर्वं परमपुरुषाय एव भवति तर्हि साधकः परमा परमात्मानं प्रति स्थायिरूपेण गभीरम् आकर्षणं अनुभवति तदेव योगः तदेव वास्तविकः योगः तत्र लोके अन्यत्र योगा स्टुडियोस् यत्र सर्वत्र अस्ति ते किमपि न जानन्ति योगविषये किमपि न जानन्ति तेषां कल्पना अपि नास्ति वास्तविकयोगः इत्यस्य अर्थः कः इति न जानन्ति परमपुरुषं प्रति गहनः गहनम् आकर्षणम् एव अस्माकं जीवनस्य लक्ष्यमस्ति तर्हि तत्र अस्माकं जीवनं कथं भवेत् साधकस्य जीवनं कथं भवेत् इति चेत् वि नीड् टु फील् द प्रेसेन्स् आफ् परमपुरुष इन् एव्रिथिङ्ग् वि डु परमपुरुषस्य सान्नि सान्निध्यौ अस्माकं जीवनं भवेत् तादृशवासः भवेत् यदा वयं खादामः तदानीं तादृशः अनुभवः अहं परमपुरुषं परमपुरुषाय ददामि भोजनं यदा जलं पिबामः तदानीं पिबामः तदानीं परमपुरुषाय जलं ददामि मम शरीरं मम नास्ति मम शरीरं परमपुरुषाय अस्ति अतः यत्किमपि अहं करोमि तर्हि तत् परमपुरुषस्य अहं करोमि मम मम यः लघु अहङ्कारः अस्ति मम अहङ्कारः यः अस्ति वस्तुतः तादृश अहङ्कारः नास्ति मम अहङ्कारः मम अस्तित्वं नास्ति मम सर्वं परमपुरुषाय इति तादृशभावना अस्माकं भवेत् तदानीं जीवनम् आनन्दपूर्णं भवति द लै लैफ् बिकम्स् वेरि लैट् यु डोण्ट् हेव् दिस् बोजा यु डोण्ट् हेव् दिस् बर्डन् तदानीं बन्धनं नास्ति तत्र जीवनं बिकम्स् वेरि वेरि लैट् लैट् बिकास् as you give up your individuality when you keep giving up your individuality so ahankaram yadayam tyajamaha tadanam kim bhavati iti cet our our mind becomes very very very light when the mind becomes very very light then automatically you start getting the bliss you start getting the ananda because you don't have any burdens you don't have any tensions you don't have any worries right timapinasthi tadatam asmadhi kim karaniyam iti cet tatra परम परमपुरुषार्थ परमपुरुषाय अस्माभिः सेवा करणीया सेवा करणीया अन्यजनानां सेवा सेवा करणीया अन्यपशूनाम् अन्यजीवानाम् अस्माभिः सेवा तेन एव अस्माकं यः यः अहङ्कारः अस्ति सः अहङ्कारः गच्छति तदेव योगस्य वास्तविकः अर्थः अस्ति तर्हि यत्किमपि यस्य कस्यापि विषये वयं चर्चां कुर्मः भोजनं वा भवतु सात्विकाहारः वा भवतु आसनं वा भवतु अन्य यः कोऽपि अभ्यासः वा भवतु तस्य तस्य पृष्ठतः किम् अस्ति इति चेत् तस्य पृष्ठतः परमपुरुषं प्रति गहनः प्रेमभावः एव अस्ति तादृश अनुभवार्थमेव वयं यत्किमपि वयं कुर्मः दीस् आर् आल् प्रेपरेटरि फेसस् दि आसनास् दि फूड् एव्रिथिङ्ग् प्रेपरेट्रि सो देट् At the end of the day, it is to develop that deep attraction towards Paramah Purusha. Paramah Purusha is like a magnet to get attracted towards Him, to develop that, uh, that, key, that, that deep attraction, the deep experience of love for Paramah Purusha, right? So, Vyam tu bhautika jivane vasamaha Ataha bhautika vastubhyaha prabhavaha bhavati Yada bhautika vastubhyaha अस्माकं मनसि प्रभावः भवति तदानीं मनः स्थूलं भवति द मैण्ड् गेट्स् क्रूडिफैड् बै द आब्जेक्ट्स् आफ़् द वर्ल्ड् तदानीं वयं परमात्मानं प्रति आकर्षणं अनुभवितुं न शक्नुमः यदा मनः स्थूलं भवति अतः त अस्माभिः किं कर्तव्यम् इति चेत् तत्र मनसि तत्र मनसि परम परमपुरुषं प्रति आकर्षणम् अस्माभिः वर्धनीयम् यदा परमात्मानं प्रति आकर्षणं वर्धते तदानीं मनः मनसः उन्नयनं शक्यते वस्तुतः मनुष्यस्य स्वभावः कथम् अस्ति इति चेत् स्वभावतः अस्माकम् आकर्षणम् अस्ति परमात्मानं प्रति आकर्षणं स्वभावतः अस्ति परन्तु किं भवति इति चेत् बहुकालात् पशुजीवनं जातम् इति कृत्वा तादृश आकर्षणस्य विस्मरणं जायते तत्र लौकिकवस्तुभ्यः तत्र व्यवहारिक मेटीरियलिस्टिक् भौतिक संसारे अस्माकं मनस् मनः अध मन मनसः अधोगतिः भवति सर्वेषाम् अधिक आधि, आधि, आधिक्य आधिक्ये आधिकांशे, आधिकांशे जनानां मनसः अधोगतिः अस्ति इति कृत्वा ते परमात्मानं प्रति आकर्षणं अनुभवितुं न शक्नुवन्ति परन्तु यस्य पुरुषस्य अन्तश्चक्षुः उद्घाटितः भवति परमात्मनः परमात्मनः कृपया तदानीं तादृशपुरुषस्य मनः वर्धते प्रायेण जनाः एतत् न अवगच्छन्ति अधिकांशजनाः कदापि न अवगच्छन्ति ते सर्वदा परिमितवस्तुभ्यः सन्तोषं प्राप्तुमेव जीवन्ति अधिकं धनं वा भवतु अधिकं अधिकं यशः भवतु तस्मिन् विषये एव चिन्तनं कुर्वन्ति परन्तु वास्तविकमानवजीवनं किम् इति चेत् तत्र यदा परमपुरुषस्य प्रसादः लभ्यते परमपुरुषस्य प्रसादेन वयम् अवगच्छामः मानवजीवनस्य लक्ष्यं किम् अस्माकम् अन्तश्चक्षुः उद्घाटितः भवति तदानीं किं वयं कुर्मः इति चेत् तदानीं तादृश अनन्तकामना कामनायाः पूर्त्यर्थं वयं यत्नं कुर्मः तदानीं वयं वास्तविकरूपेण मानवः मानवः इति बहिः अपि मानवः अन्तः अपि मानवः इति वयं भवामः अतः अत्र यत्किमपि वयं कुर्मः तत्र सर्वविध जीवनशैली शैल्याः विषये यत्किमपि वयं कुर्मः तत्र सर्वत्र उद्देश्यं किम् इति चेत् मनसः वर्धनं मनसः वर्धनं यदा मनसः वर्धनं भवति तदानीं मनः सूक्ष्मं भवति सूक्ष्मं भवति यदा सूक्ष्मं भवति तदानीं परमात्मनः अनुभवः शक्यते समाधिः सा तदा यदा मनः वर्धते तदानीं वयं साधनां कुर्मः चेत् तदानीं समाधिः अपि परमात्मनः कृपया समाधिः अपि लभ्यते एतदेव अस्माकं जीवनस्य उच्चतमं लक्ष्यम् अस्ति दिस् इस् टु रियलैस् द हैस्ट् फार्म् existence and become one with paramapurusha that is the goal of life em bahubahu mahatvapurnaha visayah asti yaha sadakah asti saha pratyekam shwasah yaha sadakah sikaroti pratyekam shwasah paramatmana paramatmanah krite eva asti etat kevalam bauddhika vicharaha nasti it is not just an intellectual understanding we talk about 99 at 99% practice and 1% theory and that that philosophy is also something we live and breathe right that darshanam api yadasti 1% theory ida yadasti tadapi vayam asmakam jivane aanayamaha tatapi sarvada asmakam jivane asti right katam how can i feel this more how can i engage with it more deeply iti eva vicharahasti तर्हि अत्र मानवजीवनं मानवजीवनं त्रिस्तरीयजीवनम् अस्ति रैट् दे आर् त्री एस्पेक्ट्स् टु ह्यूमन् एक्सिस्टेन्स् शारीरिकं शारीरिकं मानसिकम् आध्यात्मिकं खलु शारीरिकं मानसिकम् आध्यात्मिकं शारीरिकस्तरे वयं किं कुर्मः इति चेत् शारीरिकस्तरे अस्माभिः कथं व्यवहर्तव्यम् इति चेत् शारीरिकस्तरे अस्माभिः सेवां कुर्मः जनानां सेवां कुर्मः अन्यप्राणिनां सेवां कुर्मः तर्हि शारीरिकस्तरे कुर्मः वर्धनार्थं तदनन्तरं मानसिकस्तरे वयं किं कुर्मः इति चेत् यदा योगनिष्ठजीवने वयं योगनिष्ठजीवनस्य पालनं यदा वयं कुर्मः तदानीं किं भवति इति चेत् अस्माकं मनः वर्धते द मैण्ड् गेट्स् एलिवेटेड् यदा मनः वर्धते तदानीं समत्वभावः अपि आयाति समत्वभावः आयाति यदा मनः वर्धते इति शा इति मानसिकस्तरे मानसिकस्तरे एतत् सर्वं कुर्मः अनन्तरम् आध्यात्मिकस्तरे वयं साधनां कुर्मः साधनां यदा वयं कुर्मः तदानीम् एकाग्रतां प्राप्नुमः एकाग्रतां यदा वयं प्राप्नुमः तदानीं परमात्मनः सः ऐक्यम् अपि शक्यते इति कृत्वा मनुष्यजीवनं त्रिस्तरीयं वर्तते शारीरिकं मानसिकम् आध्यात्मिकं दि द स्पिरिच्युवल् आस्पेक्ट् आध्यात्मिकस्तरः is when we transcend the mind yada manasatita bhavamaha tadanim atra samadhihi labhyate samadhihi labhyate vin so when we engage in discussions like satsang we engage uh, in discussions that is on the uh, intellectual plane it is just on the intellect bauddhika saraye avasti so etadrisya satsangasya ko labha iti cet the value of this satsanga is that it helps us to understand the path so that we don't get misguided anetapi okay? vaktavya atah loke bahu atah bahuni <speaking> darshana shastraani santi tarhi aimeva sam irameva <in foreign> samyak asti mama krite eti katam aham janami iti jeva yada yada syad asya yoganish jeevanasya etadayam palanam <language> kurma तदानीम् अस्माकं हृदे अस्माकं हृदि एव एकः विचारः याति एतद् अत्र अत्र यत्किमपि उच्यते अत्र यदा वयम् अत्र बहूनि करपत्राणि पठामः तदानीं वयं सम्पूर्णतया अवगच्छामः अत्र यत्किमपि उच्यते तत् तत्तु सत्यमस्ति इट् जस्ट् अलैन्स् वित् वाट् मै हार्ट् शेस् रैट् इट् इट् फील्स् ट्रू इट् इस् नाट् देर् इस् नो हिपोक्रसि देर् इस् नथिङ्ग् इट् इस् जस्ट् असुल्यूट् ट्रूत् एण्ड् वेन् यु फील् दट् फ्रम् द बोटम् आफ़् य हार्ट् देन् यु नो दट् दिस् इस् द पात् यदा तादृशविचारः आयाति तदानीं तदनन्तरं संशयः न स्यात् यु ह् टु गेट् टु गेट् आर् सो मेनि बस्ट् हेट् दिस् बस्ट् गो टु डेलि तादृशसंशयः न स्यात् यदा याने न उपविशामः तावत्पर्यन्तं संशयः भवति अयम् अयं मार्गः वा अयं मार्गः वा अयं मार्गः वा इति यदा अस्माकं मनसि एक गाढरीत्या गाढरीत्या अयमेव सत्यविचारः इति तादृश अनुभवः भवति तदानीं संशयः न भवेत् तदनन्तरं किं करणीयम् इति चेत् अत्र तस्य जीवने आनयनमेव करणीयं यदा वयं तादृशं वयं कुर्मः तादृशं वयं कृत्वा वयं पश्यामः चेत् तदानीमेव वयम् अनुभोक्तुं शक्नुमः अत्र किम् तत् सत्यं वा इति वयं स्वयं परिशीलितुं शक्नुमः अन्येषु दर्शनेषु तादृशविचारः नास्ति अत्र यत्किमपि उक्तं तद् वयं अग्रे गच्छामः परन्तु तस्य जीवने आनयनं वयं कदापि न कुर्मः एतत् सत्यं वा इति स्वयं भवन्तः एव जानन्ति इत्युक्ते तत्र बहु किमपि उच्यते परन्तु तस्य जीवने आनयनम् अस्ति वा न वा इति वयं कदापि पश्यामः वा न यावत्पर्यन्तं सत्सङ्गे वयं तिष्ठामः तावत्पर्यन्तं वयं सर्वं शृण्मः सर्वं सम्यक् अस्ति परन्तु अनन्तरं गृहं प्रति गच्छामः तदानीम् अस्य विचारः मम जीवने कथं मया आने इत्यस्य विषये विचारः अपि प्रायः न भवति विचारः अस्ति चेदपि कथम् आनेतव्यम् इत्यपि वयं न जानीमः परन्तु अत्र तथा नास्ति अत्र यद् उच्यते तस्य जीवने कथमानयनम् इत्यत्रापि मार्गः अस्ति ये अयम् अयम् उच्चतमः हा विचारः अस्ति तस्य जीवने कथम् आनयनम् इत्यस्मिन् विषये अपि अत्र मार्गः हा प्रदर्शितः अस्ति इति अत्र उक्त्वा अहम् इदानीम् अग्रे अस्माकं करप्र करपत्रं प्रति गच्छामि तत्र धर्मः कः इति विषयः जायमानः अस्ति तत्र अस्माभिः दृष्टं मानवः कः मानवस्य धर्मः कः मानवस्य धर्मः कः मानवः पशुभ्यः कथं भिन्नः अस्ति मानवस्य अनन्तेषणा वर्तते तादृश अनन्त अनन्तस्य प्राप्त्या एव अस्माकम् अनन्तेषणा पूरिता भवति तर्हि अनन्तः एकः एव दट् कास्मिक् एण्टिटि इस् द ओन्ली इन्फैनैट् एण्टिटि तेन एव अस्माकं अनन्तेष्णायाः पूर्तिः भवति इति तत् सर्वम् उक्त्वा तदनन्तरम् अत्र द्वितीयभागे करपत्रस्य द्वितीयभागे अस्माभिः दृष्टं यत् यत्किमपि कार्यं वयं कुर्मः तत्र दश इन्द्रियाणि सन्ति कर्मेन्द्रियाणि पञ्च कर्मेन्द्रियाणि सन्ति यद्यपि इन्द्रियाणि सन्ति तथापि तत्र तस्य पृष्ठतः तेषां पृष्ठतः यावत्पर्यन्तं मनः संलग्नः संलग्नं नास्ति तावत्पर्यन्तं किमपि कार्यं न भवति इत्यपि अस्माभिः दृष्टं तर्हि इदानीम् अहं पुस्तकं पश्यामि चक्षुरिन्द्रियद्वारा अहं पुस्तकं पश्यामि चेत् मनः तत्र संलग्नं नास्ति चेत् तदानीं पुस्तकस्य दर्शनं न भवति मनः अपि तत्र संलग्नं भवति तदानीं तत्र इन्द्रियं तन्मात्राणि पुस्तकात् तन्मात्राणि इन्द्रियं स्वी स्वीकरोति तदनन्तरं तस्मात् चक्षुरिन्द्रियात् चित्तं तानि रूपतन्मात्राणि चित्तं स्वीकरोति तदानीं चित्तं पुस्तकस्य आकारं गृह्णाति पुस्तकस्य आकारं यदा गृह्णाति तदानीं तत्र तदानीं तत्र अहं तत्त्वं पुस्तकं पश्यति अहं तत्त्वमेव तत्र स्वामी अस्ति अहं तत्त्वमेव निर्णयं करोति अहं किं किं करोमि अहं किं पश्यामि अहं किं जिग्रामि अहं किं कार्यं करोमि एतत् सर्वम् अहं तत्वमेव चिन्तयति तदनुगुणं चित्तं तस्य आकारं गृह्णाति तदानीम् अहं तत्वं तस्य अनुभवं प्राप्नोति परन्तु अहं तत्त्वस्यापि पृष्ठतः तत्र महत्तत्त्वं वर्तते महत्तत्त्वम् अहम् अस्मि इति भावः एव महत्तत्त्वम् अहमस्मि इति भावः महत्तत्त्वं तर्हि इति तत्र अहं महत्तत्त्वम् अहं तत्त्वम् अपि चित्तम् इति तेषां त्रयाणां मिलित्वा अन्तःकरणम् इति वयं वदामः तर्हि अहम् अस्मि इति भाव भावस्य पृष्ठतः अहम् इति यः अस्ति सः एव शुद्धपुरुषः अस्ति शुद्धपुरुषः मम मनः इति अहं मनः नास्मि अहं मनः नास्मि मम मनः इति अहं वदामि चेत् तत्र मनसः पृथक् काचित् सत्ता वर्तते इति वयम् अवगन्तुं शक्नुमः सा सत्ता एव जीवात्मा वर्तते तर्हि जीवात्मा पृथक् अस्ति अन्तःकरणं तर्हि जीवात्मा शुद्धपुरुषः अस्ति तस्य गुणाः न परन्तु यदा जीवात्मा प्रकृत्या प्रकृतेः गुण गुणैः प्रभावितः भवति तदानीं जीवात्मा एव एतादृश पृथक् रूपाणि गृह्ण गृह्णाति जीवात्मा यता मा तत्त्वम् अहं तत्त्वं चित्तम् इति तत्र कथम् एतादृशरूपाणि जीवात्मा गृह्णाति इति वयमग्रे वयं पश्यामः भगिनि नमस्कार एक प्रश्नः अस्ति अन्तःकरण यदि यथा भवती उक्तवती मा तत्त्वम् अहं तत्त्वम् अपि चित्त तत् तदा भवति यदा प्रतिबिम्बं भवति साधु जीवात्मस्य प्रतिबिम्ब mm तस्मात् इति अन्ततरणस्य उत्पत्तिः -hmm. अस्ति साधु आमा जीवात्मनः प्रतिबिम्बम् अस्ति mm -hmm. प्रतिबिम्बः प्रतिबिम्बः तु अस्ति यदा प्रकृतेः गुणस्य प्रभावः भवति तदानीम् एतादृशरूपं भवति जीवात्मनः ah. जीवात्मा एव जीवात्मनः प्रतिबिम्बः एव तत्तु अस्तु yeah. इति इत स्पष्टीकरणं मनसि पृष्टम् आमां समीचीनं तर्हि तन्मात्रम् इति नूतनपदम् अस्माभिः दृष्टमासीत् गतवर्गे इदानीं किञ्चित् अग्रे गच्छामः ओके अत्र दृश्यते खलु अस्तु तर्हि किं सरलवग्नि पठति वा अस्तु पूर्वमेव व्याख्यातं यत् चित्तम् अहं तत्त्वं च महत्तत्त्वम् वा बुद्धितत्वम् इत्येतेषाम् त्रयाणाम् समूह एव मनः इति उच्यते अहं तत्त्वम् यदि इच्छति तद् रूपम् गृहीतुम् एव चित्तस्य सामर्थ्यम् अस्ति तत् तत्त्व तत्त्वत् एव अहं तत्त्वस्य केवलं कर्म कर्तुं सामर्थ्यम् एव वर्तते तत् केवलं कार्यं कर्तुं शक्नोति अहं तत्त्वं कार्यार्थं प्रेरयितुं प्रेरयितुम् अन्यत् किमपि भवेत् तत् प्रेरकं महत्तत्त्वं बुद्धितत्वं वा यत् अहम् इति भावं ददाति तत् अहम् इति भावः मनसा निष्पन्नः अस्ति तथा तत् अहं मनसि अहं तत्त्वं चित्तम् च स्वस्य कार्यं कारयति यद्यपि अहं तत्त्वम् अहं तत्त्वं प्रभावेण चित्तम् पुस्तकस्य आकारं गृह्णाति तथापि पुस्तकस्य अनुभूति दर्शनं वा न सम्भवति अहम् इति भावेन विना परन्तु इदम् अहं तु केवलं मनसः एकः भागः एव अस्ति अहम् अस्मि इति कथनेन अहं जानामि यत् अहम् अस्मि तावत् पर्यन्तम् एकं भगिनि अहम् अग्रे गच्छामि अहम् okay. अस्मि इति अर्थात् अन्यत् अहम् अस्मि यत् अहं धारकम् अस्ति अथवा अहं यत् मनः अस्ति इति जानाति मनसि अहम् इत्यस्य अस्ति इति एव अस्तित्वेन एव अस्तित्वेन एव अस्तित्वेन एव पुनः पठामि मनसि अहम् इत्यस्य अस्तित्वेन एव सिद्ध्यति यत् अन्या काचित् वास्तविकसत्ता अस्ति या मनसः परा अस्ति परन्तु सा मनस अस्तित्वं तु जानाति इदम् अहम् एव साक्षीसता अस्ति सा साक्षीसता या मनस अस्तित्वम् अपि च बुद्धितत्त्वस्य वा अहम् इति भावस्य वा अस्तित्वस्य साक्षी भवति सा सता एव आत्मा अथवा अनुचैतन्यम् इति उच्यते एवम् आत्मनिरीक्षणेन एकाग्रचिन्तनेन च आत्मा अनुचैतन्यं मनश्च द्वे पृथक् सते वर्तते इति कश्चन अवलोकयति पूर्वम् अतिथि पूर्व वयं दृष्टवन्तः अन्तःकरणस्य भागत्रयमस्ति चित्तं यत् इन्द्रियाणि तन्मात्रा स्वीकृत्य वस्तुनः शब्द रूप गन्ध रस इत्या स्पर्श तेषाम् आकार यदि मनसि आगच्छति तत्र चित्तं वयं वदामः तदनन्तरम् अहं तत्वम् आगत्य तत्र स्वीकरोति अहं पश्यामि शृणोमि इति अहं तत्त्व स्वीकरोति किन्तु तत् अहं तत्त्वस्य अपि कथम् इति चेत् आगच्छति अहं पश्यामि शृणोमि इति कारणकी महत्तत्त्वम् अस्ति तस्य महत् तत्त्वस्य विद्यमानत्वेन एव अहम् अस्मि महत्तत्त्वमिति चेत् अहम् अस्मि इति केवलं स्वीक तस्य शक्तिः अस्ति पावर् अस्ति अहम् अस्मि तत् तस् तत् कृतेन अहं तत्त्वमिति जानाति अहं किम करोमि किं न करोमि किम् अस्ति इति तस्य इति कार्यमागच्छति अहं तत्त्वस्य अहं तत्त्वं यदि चित्तस्य आकार पश्यति तत् पश्य दृष्ट्वा इति कर्मेन्द्रियाम् इति तस्य आर्डर ददाति किं कर्तव्यम् इति पुस्तकम् उत्थात् उत्था उत्थाय पठ पठनीयम् न इति अस्तु इति वयं दृष्टवन्तः Uh, यदि अहं uh, तत्त्वा यदिच्छति तद् रूपं क्रेतुमेव चित्तस्य सामर्थ्यम् अस्ति तु इति वयं दृष्टवन्तः चित्तस्य सामर्थ्यं भवति का, कारणं कि अहं दत्वा इति uh, जानाति चित्तं केवलम् आकारः एव अस्ति यथा uh, वयम् uh, आकार पश्या पश्यामः uh, आदर्शे uh, तथैव चित्तं केवलम् आकार इति वस्तुनः uh, वा ये इन्द्रियाणि सन्ति तेषां ये आब्जेक्ट्स् अस्ति तेषाम् आकार करोति इदानीम् अहं तत्त्वं कर्म कर्तुं सामर्थ्यं वर्तते तत् केवलं सामर्थ्यं भवति कारणकी महत्तत्त्वम् इति तस्य सामर्थ्यं ददाति तत् तस्मि तस्मै सामर्थ्यं ददाति महत्तत्त्वं यदि यद्यपि अहं तत्र प्रभावेन चित्तं पुस्तकस्य आकारं गृहाति तथापि पुस्तकस्य अनुभूति दर्शनं वा न सम्भवति विना परन्तु इदम् अहं तु केवलं मनसः एकः भागः अस्ति इति वयं दृष्टवन्तः मनस एकभागः यत् चित्तम् अस्ति तत्र आकारः भवति किन्तु अहं तत्त्वं यत् तस्य तत्त सामर्थ्ये तत् पश्यति किन्तु तत् सामर्थ्यम् आप्नोति महत्तत्त्वात् इति अस्ति तदनन्तरम् अस्ति यत् कः इति यत् सामर्थ्यं महत्तत्त्वे अहं तत्वे वा चित्ते चित्त चित्तसा चित्तसि आगच्छति इति यदि आगच्छति तत्र कथं वयं जानीमः केन <laughs> प्रभावेन भवति किन्तु एक तस्य परा एका सत्ता अस्ति यत् वयं वदामः चैतन्यसत्ता इति आत्म आत्मरूप वा इति अस्ति तस्य प्रभावेन एव महत्तत्त्वम् अहं तत्त्वम् इति यत् अन्तःकरणम् अहं वदामि इदानीम् अन्तःकरणम् इति सामर्थ्यं प्राप्नोति तु एका सता भिन्ना अस्ति यत् साक्षी इति पश्यति महत्तत्त्वं किं करोति अहं तत्त्वं किम् इति यत् तस्य साक्षात् इति प्रत्यक्षं करोति तत् अस्ति सत्ता भिन्ना सत्ता अस्ति तस्य चैतन्यरूपं वा अनुचैतन्यं वयं वदामः सो अन्यत् अस्ति अन्तःकरण अपेक्षा अन्या यत् सत्ता अस्ति इति वयं वास्तविकसत्ता इति अणुचैतन्यमिति वदामः आत्मा पर पुरुषं भिन्नभिन्न पुस्तकैः भिन्न तस्य नाम दत्तमस्ति अत्र च साक्षीसत्ता इति दत्तमस्ति अणुचैतन्यं दत्तम् इति आमां सम्यक् सम्यक् भगिनी सम्यक्तया उक्तवती इति तत्र वस्तुतः अन्तःकरणम् इत्युक्ते तत्र तय भागाः सन्ति महत्तत्त्वम् अहं तत्त्वम् अपि च चित्तम् इति तर्हि इत्युक्ते सामान्यमनुष्याणां तत्र अहङ्कारस्य एव बोधः अस्ति मनः एव अहम् इति भावः अस्ति सर्वदा सर्वेषां प्रायेण जनानाम् अहङ्कारस्य एव अहम् इति भावः इति अहमिति रूपेण जनाः पश्यन्ति परन्तु तत्र सूक्ष्मतया वयम् अवलोकनं कुर्मः चेत् वयं ज्ञातुं शक्नुमः तत्र मनसः पृष्ठतः अन्या काचित् सत्ता वर्तते इति वयं ज्ञातुं शक्नुमः अत्र वस्तुतः अन्तःकरणम् इति वयं पश्यामः चेत् अहं तत्त्वेन अहङ्कारेण अहङ्कारेण यदिष्टं तदेव चित्तं तद्रूपमेव गृह्णाति खलु तादृशसामर्थ्यमेव अस्ति चित्तस्य अहङ्कारेण यदिष्टं तद्रूपं गृह्णाति चित्तम् चित्ते तादृशसामर्थ्यमेव अस्ति चित्तं स्वतन्त्रतया किमपि न कर्तुं शक्नोति यावत्पर्यन्तम् अहङ्कारात् तत्र निर्देशः न प्राप्यते तावत्पर्यन्तं चित्तं किमपि स्वतन्त्रतया न कर्तुं शक्नोति अहङ्कारः तु केवलं एव करोति करोति अहङ्कारः कार्यं करोति परन्तु तत्र परन्तु तत्र यत्किमपि भवतु नाम अहङ्कारेण यद् कार्यं कारयति तदेव चित्तं करोति यद्यत् कार्यं कारयति तद् चित्तं करोति परन्तु अहङ्कारः तादृशकार्यं कारयितुं तदा एव शक्यते यदा तस्य पृष्ठतः महत्तत्वं वर्तते यदा यावत्पर्यन्तम् अहम् अस्मि इति भावः नास्ति तावत्पर्यन्तम् अहङ्कारः किमपि कर्तुं न शक्नोति अतः महत्तत्त्वमपि अपेक्षितमस्ति तत्र महत्तत्वम् अपेक्षितम् अपेक्षितमस्ति महत्तत्त्वात् एव अहम् अस्मि इति भावः आयाति महत्तत्वम् एव अत्र करणमस्ति येन अहं तत्त्वं किमपि कर्तुं शक्नोति अहं महत्तत्त्वं नास्ति चेत् अहं तत्वं किमपि कर्तुं न शक्नोति किन्तु महत्तत्त्वमपि मनसः एकः एव भागः अस्ति मनसः अन्य अन्यभागः अन्यभागौ सः अहं तत्त्वम् अपि च चित्तं तर्हि यदा वयं चिन्तयामः यदा वयं वदामः यत् अहं तत्त्वम् अस्ति मनः अस्ति इति वयं सर्वदा चिन्तयामः तदानीं कस्य विचारः अस्ति कस्य अवगमनम् अस्ति तत् मनः अस्ति इति अहं तु मनः नास्मि अहं तु मनः नास्मि सर्वदा अस्माकं व्यवहारः कथमस्ति मम मनः इति वर्तते खलु मम मनः इत्येव व्यवहारः मै मैण्ड् इति व्यवहारः अस्ति तर्हि मै इति कस्य कः अस्ति सः यस्य मनः वर्तते इति चेत् तेन वयम् अवगन्तुं शक्नुमः मनः पृथक् अस्ति अपि च अन्य अन्य अन्या सत्ता वर्तते या सत्ता पृथक् वर्तते सा सत्ता एव आत्मा अथवा सा एव परमपुरुषः सा सत्ता एव परमचैतन्यम् अस्ति यः या सत्ता मनसः अपि अनुभवं प्राप्नोति सा सत्ता मनसः पृथक् वर्तते अतः सा सत्ता एव सर्वदा तत्र मम मनः वर्तते मम वरम मनः वर्तते इति यादृश अनुभवः भवति तत्र तत्र सा सत्ता एव मनसः अपि अनुभवं प्राप्नोति अतः सा सत्ता आत्मा सा सत्ता जीवात्मा परमपुरुषः इति वयं वक्तुं शक्नुमः तत्र चित्तस्य बहु सामर्थ्यं वर्तते बहु सामर्थ्यं चित्तस्य सामर्थ्यम् अल्पम् इति नास्ति चित्तस्य बहु सामर्थ्यं वर्तते परन्तु सा सामर्थ्यं तस्य सीमा अपि वर्तते सामर्थ्यम् अहङ् अहङ्कारेण यद् निर्दिष्टं तदनुगुणमेव चित्तस्य सामर्थ्यं भवति यथा अहं तत्त्वम् इच्छति तद्रूपमेव चित्तं गृह्णाति अहं तत्वं सर्वविधं कार्यं कर्तुं अहं तत्त्वस्य सामर्थ्यं वर्तते अहं तत्त्वम् इच्छति यत्किमपि एतत् करोमि एतत् करोमि इति इच्छति तद् त तस्मिन् विषये चिन्तयति तर्हि तत्र तदनुगुणं चित्तं तस्य कार्यं करोति प्रतिदिनं वयं पश्यामः चेत् प्रातःकालात् प्रातःकालात् आरभ्य रा रात्रौ पर्यन्तं यत्किमपि चिन्तनं कुर्मः तत्सर्वम् अहं तत्वेन क्रियते तदनुगुणं चित्तं रूपं गृह्णाति इदानीम् अहं पुस्तकं इदानीं मया पुस्तकं पठ्यते इदानीम् अहं पचनकार्यं करोमि इदानीम् अहम् अन्यत् किमपि करोमि यत्किमपि यः कोऽपि विचारः अस्ति सः आहा अहं तत्त्वे भवति तादृशविचारानुगुणं चित्तं तद्रूपं गृह्णाति तर्हि तत्र प्रेरणा तत्र प्रेरणा कस्य प्रेरणा प्रेरणा कस्मात् लभ्यते इति महत्तत्वात् लभ्यते अहम् अस्मि इति भावः यावत्पर्यन्तं नास्ति तावत्पर्यन्तं अहं तत्त्वं किमपि क कर्तुं न शक्नोति अहं तत्त्वम् अहं तत्त्वस्यापि बहु सामर्थ्यं वर्तते बहु सामर्थ्यं वर्तते भिन्नभिन्नकार्यं कर्तुं सामर्थ्यं वर्तते किमर्थम् एतादृशसामर्थ्यम् अस्माकं वर्तते मनुष्याणां वर्तते इति चेत् तत्र मनुष्येषु एव महत्तत्वं सम्पूर्णतया वर्धितं वर्तते अन्येषां जीवानाम् अपेक्षया अन्येषु जीवेषु महत्तत्वं तत्र अन्यपशुः वा भवतु अथवा क्रिमयः वा भवतु वृक्षः वा भवतु यत्किमपि भवतु तत्र महत्तत्वं सम्पूर्णतया विकसितं नासीत् तेषां कृते अतः तेषां कृते सम्पूर्णतया जागरूता जागरूकता नास्ति तत्र ते तु स्वस्य सहजवृत्तिः कथमस्ति तदनुगुणे एव तेषां मार्गदर्शनं भवति वै दिन्बोर्न् इन्स्टिङ्क्स् ते फङ्क्षन् अतः परन्तु मनुष्याणां तथा नास्ति मनुष्याणां महत्त्वं सम्पूर्णतया वर्धितं वर्तते इति कृत्वा मनुष्याणां पशूनां भेदः कः इति चेत् मनुष्याणां स्वतन्त्र इच्छा वर्तते पशुषु स्वतन्त्र इच्छा नास्ति सर्वकविधकार्यं कर्तुम् अस्माकं स्वतन्त्र इच्छा वर्तते अस्माकं सामर्थ्यं वर्तते अस्माकं विवेकः वर्तते वयं विचारं कर्तुं शक्नुमः किम् उचितं इति वयं निर्णयं कर्तुं शक्नुमः अन्येषां जीवानां तादृशसामर्थ्यं नास्ति यतोहि तेषां वर्धितं महत्तत्त्वं नास्ति अतः तत्र अहं तत्त्वस्यापि सामर्थ्यम् अधिकं नास्ति महत्तत्वं वर्धितं नास्ति इति कृत्वा अहं तत्त्वस्य सामर्थ्यम् अधिकं नास्ति अहं तत्त्वस्य सामर्थ्यं किम् अस्ति इति चेत् तत्र स्वस्य सहजवृत्तिः यथा अस्ति तथा तेषां कार्यं भवति परन्तु मनुष्याणां तथा नास्ति मानवस्य कृते न केवलं अहम् अस्मि इति भावः अस्ति अपि तु अहं जानामि अहं जानामि अहम् अस्मि इति अपि भावः अस्ति न केवलम् अहम् अस्मि अपि तु अहं जानामि यत् अहम् अस्मि जनाः तस्य तस्य विषये वदन्ति मम मनः मम मनः सम्यक् नास्ति इति वदन्ति मम मनः इति यदा वयं वदन्ति तदानीं तत्र दिस् इस् मै मैण्ड् इति कः वक्तुं शक्नोति इति चेत् मनसः पृष्ठतः का पृष्टतः अन्या सत्ता भवेत् सः एव वक्तुं शक्नोति मम मनः इति वक्तुं शक्नोति अतः सा सत्ता का इति चेत् आत्मा एव सा सत्ता इति वक्तुं शक् शक्नुमः मम हस्तः तथा मम मनः तर्हि सा चेतना अथवा तत्र परमपुरुषः जीवात्मा इति वयं वक्तुं शक्नुमः भगिनी तत् सत्ता, सत्ता यत् अस्ति साक्षी सत्ता इति दत्तमस्ति अत्र साक्षीभावः यत् वयं कुर्मः अस्माकमिति कर्तव्यं अस्माभिः साधुभाव साक्षीभाव इति मेडिट् यदा वयं साधनां कुर्मः वा सर्व दिनस्य कार्यचर्चा साक्षीभावः कर्तव्यम् इति वयं वदामः साधु साक्षीभावः इति आत्मा करोति साक्षीभाव महत्तत्त्वं करोति मनः एव करोति अहं तत्त्वं करोति अहं तत्वं करोति that is what is uh, the brahmacharya pavaha ah <laughs> ante <laughs> eti karomi aham karomi eti karomi eti aham eti ahankarasi sadhu eti aham ida aham karomi eti vayam vadamaha sarvada ahankarena vayam vadamaha aham karomi ah karomi it is we elevate our small i and when we say aham karomi oh mayakrutam eti vayam vadamaha kalo <laughs> <laughs> ahankarena <laughs> vayam vadamaha yada tadrasam yada aham karomi eti aham vadani tadanim asmaka manasi tadrasa bhavah bhavet yat अहम् इत्युक्ते अत्र परमात्मा अहं नास्मि अहं परमात्मनः यन्त्रः अस्मि इति तादृशभावः यदा भवति मनसि तदेव ब्रह्मचर्यम् इति वयं वदामः ब्रह्मणि विचरणम् इत्युक्ते यत्किमपि वयं कुर्मः तत्र ब्रह्म एव वयं पश्यामः तत्र साक्षीसत्तामेव वयं पश्यामः यदा तथा वयं कुर्मः तदानीम् अस्माकम् अहङ्कारः न वर्धते अस्माकम् अहङ्कारस्य नाशः भवति अस्माकम् अहङ्कारः दट् इस् वाट् इस् एक्चुलि Uh, that will help you in your sadhana when you are trying to merge your smaller eye with the infinite. Tadeva tatra brahmacharya bhava iti vayam vada maha. Sakshi satta iti pte kim. Yath keema pi vayam kurmaha. Tatra brahma bhavaam si kritya vayam kurmaha. Iti pte yath karyam yaha karyam karoti saha pi brahma. Yath karyam yadasthi tada pi brahma. Yashya kritya vayam kurmaha tada pi brahma. Mm -hmm. यत् सर्वं सर्वं ब्रह्म इति तादृशभावः यस्य मनसि भवति तदानीं तदेव साक्षिसत्ता भावः इत्युक्ते ब्रह्म यः यः साक्षिसत्ता वर्तते सः एव सर्वं करोति अहं केवलं तस्य यन्त्रः अस्मि यन्त्रम् अस्मि इति विचारः न अहं अहङ्कार यदि लीन भवति साक्षितत्वे तदानीमिति मोक्षः आगच्छति साधु किन्तु यत् या, यावत्पर्यन्तम् अहङ्कारलीन न भवति किन्तु केवलम साक्षी इति वयम पश्यामः तत् तदा इति साक्षीभाव अहङ्कार करोति वा महत्तत्वं करोति साक्षीभावः न महत्तत्त्वं किमपि न करोति महत्तत्वं केवलम् अहमस्मि इति अनुभवः एव महत्तत्त्वम् कार्यं महत्तत्त्वम् अन्यत् किमपि न करोति अहङ्कारः एव सर्वं करोति यत्किमपि कार्यं करोति अहङ्कारः एव करोति अहङ्कारः यदा कार्यं करोति तदानीं तत्र स्वस्य प्राधान्यं दत्वा यदा करोति ओ मया कृतमिति यदा करोति तदानीं तत्र विस्मरणं जायते तस्य पृष्ठतः साक्षिसत्ता वर्तते इति विस्मरणं जायते परन्तु यदा यदा वै वेन् यु डू थिङ्ग्स् वेरि कान्शियस्ल सेङ्ग् दट् इट् इस्ट् मै स्माल् ऐ विच इस् डू दिस् इट् इस् द स्म ऐ इस् लैक् राम श्याम गोविन्द इस् द स्माल् ऐ सो वेन् वेन् यु गेट् दीलिङ्ग् देट इट् इस्ट् द स्माल् ऐ विच इस् डूङ्ग् बट् इट् इस् दि साक्षि सता विच् इस् डूङ्ग् देन् देन् आटोमेटिक्ल देन् देट कार्या इस् नाट् गेटिङ्ग् अटाच्ड्ड्ड्ड्ड् यु आर् नट् क्रियेटिङ्ग् संस्कार फार् राम श्याम क्वाटवर्ैट् सो एव्रिथिङ्ग् इस् बिङ्ग् डन् बै ब्रह्मा so that is it is not it is not it is only a bhava it is a bhava in your mind everything that you do when you do when you do anything you take that kind of a bhava then automatically the ahankara is not attached to it so then what happens your mind gets elevated when your mind gets elevated and automatically you see the the truth behind every activity you realize that everything is being done by paramapurusha and you just an instrument to so the, the the merging of your small i with the infinite that is actually in the samadhi so even when you're not in samadhi even when you're not in sadhana tadani api tadarsha anubhavah bhavitum arhati yada vayam brahmacharya bhavam bhavasya palanam kurma itupe yetkim api vayam kurma tadani tadarsha bhavam vayam sikurma no yatha गतसप्ताहे विजया भगिनीव स दृग्दृश्य विवेक इति भवति सा तु दृग्दृश्य तथा प्रथमं यथा वयं पुस्तकं पश्यामि एतत् इट्स् नाट् द ऐ देट् इस् वाचिङ्ग् द बुक् बट् इस् इट्स् दैण्ड् देट् वाच् इस् द बुक् रैट् मैण्ड् विच् इस् वाचिङ्ग् द ऐ देट् इस् वाचिङ्ग् द बुक् ओके देन् बिहाण्ड् द मैण्ड् इट् इस् देट् अहङ्कार देट् देट् इस् mind is uh -huh. the ahankara so, uh -huh. so citta is watching the citta citta is the uh, immediate sakshi sakta for the pustaka and uh -huh. behind us uh, pustaka the sakshi sakta is uh, the ahankara behind the ahankara the sakshi sakta is the mahatattva and behind the mahatattva the sakshi sakta is paramapurusha uh -huh. so in sadhana when you when you try to uh, you know uh, uh, you know uh, withdraw your mind so this is how you withdraw your mind you withdraw first you withdraw the chitta from the worldly objects and then you merge the chitta into aham tatva and then you merge the aham tatva into maha tatva and then you merge the maha tatva you merge the entire mind into the atma okay. so that is the process of the okay mm -hmm. yeah okay sorry sir ask you again no. And again no worries no worries is, is it clear so सो देट् इस् बट् साक्षिसत्ता अत्र साक्षिसत्ता इति यद्वयम् अत्र अत्र साक्षिसत्ता इति यद् उक्तम् अत्र साक्षिसत्ता इति किमर्थं तादृशम् उक्तम् इति चेत् अत्र मनसः अपि पृष्ठतः तत्र मनसः अपि निरीक्षणम् अन्यः अन्या सत्ता करोति इति वक्तुम् अत्र साक्षिसत्ता इत्युक्ते यदा वयं कार्यं कुर्मः तदानीं वयं किं चिन्तयामः इत्युक्ते अहमेव करोमि अत्र अन्य अन्यसत्ता नास्ति अन्या सत्ता नास्ति अहमेव सर्वं करोमि इति तादृशविचारः अस्माकं भवति इत्युक्ते इवन् वेन् वी डू संथिङ्ग् वेरि वेरि सीक्रेट् तदानीं वयं चिन्तयामः अन्यसत्ता नास्ति अहम् अन्य कोऽपि न जानाति इति वयं चिन्तयामः खलु परन्तु तथा किमपि नास्ति यत्किमपि मनः करोति तस्य पृष्ठतः आत्मा साक्षिरूपेण पश्यति एव साक्षीरूपेण सर्वं पश्यति अतः स साक्षीस आत्मा किमपि न करोति आत्मा डज़ण्ट् डु एनि आक्षन् तस्य किमपि कार्यकर्तृत्वं भोक्तृत्वं किमपि नास्ति आत्मनः परन्तु आत्मा केवलं तत्र साक्षीरूपेण तिष्ठति आत्मा सर्वं जानाति सर्वं जानाति यत्किमपि वयं कुर्मः तत् सर्वं जानाति केवलं साक्षीरूपेण स्थित्वा पश्यति तावदेव परन्तु यावत्पर्यन्तम् आत्मा नास्ति तावत्पर्यन्तं मनः किमपि न कर्तुं शक्नोति आत्मनः साक्षीरूपेण अवस्थितिः अपेक्षिता वर्तते यावत्पर्यन्तम् आत्मा तत्र नास्ति तावत्पर्यन्तं मनः किमपि न कर्तुं शक्नोति अतः मनसः पृष्टतः आत्मा अवश्यं भवेत् अस्तु अत्र हा इति वयम् अस्माभिः ज्ञातुं शक्यते जीवात्मा मनः इति पृथक् पृथक् सत्ताद्वयं वर्तते इति वयम् अवगन्तुं शक्नुमः अत्र अन्य कोऽपि संशयः इदानीमेव भवत्या उक्तम् अहं यन्त्रमेव इति अत्र देशे यत्र कुत्रापि रेवल्यूशन् गच्छति एव मनुष्यः एव एतत् सर्वाणि कार्याणि कृतवन्तः अत्र एतत् वाक्यं वक्तुं शक् शक्यते वा यन्त्रमेव इति आमाम् अहं अहं यन्त्रमेव इत्युक्ते मनुष्यः का कार्यं करोति इत्युक्ते यदि यत्किमपि कार्यमस्ति तद् द्वेधा वयं कर्तुं शक्नुमः एकं तु ओ मया एव सर्वं कृतम् ओ एतद् मया एव कृतम् अहं इति कृत्वा मया एतत् सर्वं कृतम् इति तादृशभावं स्वीकृत्य वयं कर्तुं शक्नुमः अथवा अन्येषां प्रदर्शनार्थम् ओ मया एतत् कृतं मया एतत् प्राप्तं मया मया किमपि अधिकं कृतम् uh i got a very prestigious post i got a big degree or i got uh, you know yet kim api bhavatu i got more wealth right so tad drisha ahankara rupeṇa vai vyavharatum shaknumaha athava yeta drisha bhavah api bhavitam arhati yat kim api mama asti sarvam parmatmanah asti mama kim api nasti aham kevalam tasya nirdesham eva aham karomi amaya tu degree praptam tadapi anyesham janaanam seva sevaartham eva maya praptam तस्य यन्त्रम् इति तादृशभावेन अपि वयं कर्तुं शक्नुमः यत् इत्युक्ते मनः यथा वयं चिन्तयामः तदाकारं मनः स्वीकरोति य य यथा चिन्तनं तद्वत् मनः भवति यदा स्थूलविषये वयं चिन्तनं कुर्मः सर्वदा धनस्य विषये चिन्तनं कुर्मः तदानीं मनः न वर्धते मनस्य अधोगतिः भवति यदा वयं सूक्ष्मविषये चिन्तनं कुर्मः सर्वदा परमात्मनः विषये चिन्तनं कुर्मः तदानीं मनः अपि परमात्मनः परमात्मा भवति मनः अपि मनसः वर्धनं भवति अतः यदा अहं वदामि अहं परमात्मनः यन्त्रम् इति वदामि चेत् एतादृशभावः मनसि भव् भवति एतादृशभावः सर्वदा यदा भवति तदानीं सः ब्रह्म भवति यः ब्रह्म इव व्यवहार व्यवहार व्यवहारं करोति तदानीं सः ब्रह्म भवति यथा तथा अस्माकं रूपं भवति मनः यथा चिन्तनं तद्वत् मनः भवति एस् वि थिङ्क् सो इट् बिकम्स् एस् वि थिङ्क् सो द मैण्ड् बिकम् इफ़् यु थिङ्क् आफ् पमात्मा द मैण्ड् बिकम्स् परमात्मा इ् यु िङ्क् आफ़् क्रूड् थिङ्ग्स् देन् द मैण्ड् बिकम्स् लैक् द इ् यु यु आर् कान्स्टेण्ट्लिङ्किङ्ग् अबौट् ओन्ल वन् थिङ्ग् ओ युर् कान्स्टेण्ट्लिङ्किङ्ग् अबौट् ओ मै सन् मै सन् मै सन् मै सान् आर् मै डाटर् मै डाटर् मै डाटर् आर् यु आर् कान्स्टेण्ट्लिङ्किङ्ग् अबौट् यु नो मै वेल्त् मै वेल्त् मै वेल्त् ओर् मै पोस्ट् मै जाब् मै जाब् रैट् then your mind never gets elevated it's completely attached to those things right so then you can never detach from those, those things and focus your mind on paramatma right so instead of doing as my my my my right you have the feeling that you should do you should have in your mind is that whatever i'm doing i'm doing and as an instrument for paramatma i'm doing this only to please paramatma right so i want to get his grace i want to i want to uh you know uh, b is instrument i want to be is yantra and because the, the feeling that we should have is a samatva bhav because everything in this universe is is the uh, is actually is originated from the same source we we all originated from the same source so when you serve somebody else when you when you help somebody else you're essentially helping paramatma you're essentially pleasing paramapurusha right because for paramapurusha everybody is equal paramapurusha has a samatva bhava nobody is up and nobody is down so if if we are having certain experiences in our life it is because of our of our purva janma samskaras so it is nothing to do with whether paramapurusha is partial to somebody or not paramapurusha is equal to everybody tasmin samatvam vartate sarve sarve api parmatmanah santanah eva they are all the progeny of paramapurusha so everything belongs to everybody so when we get this mamakara for something then we get this adogatihi the mind gets uh, you know degenerated by that complete attachment to one thing right so instead of getting completely attached to my wealth or my son my daughter or my uh, you know my job my post right whatever instead of that if you do it as my paramapurusha my my life is for paramapurusha for pleasing him that kind of bhava when you get that is what is called as maduvidya this सर्वदा यत्किमपि वयं कुर्मः तत्र ब्रह्मविचारं ब्रह्मभावं स्वीकृत्य कुर्मः तदानीं विडोण्ट् अक्युमुलेट् संस्कार देन् क्रासिङ्ग् दिस् दिस् भवसागरा बिकम्स् ईजियर्स् आल्सो कमिङ्ग् अण्डर् दिस् एव रैफिल् शूटिङ्ग् रैफिल्फिल् शूटिङ्ग् इस् गोङ्ग् आन् गन् शूटिङ्ग् रैफ् रैफिल् शूटिङ्ग् इस् अहं यन्त्रम् इत्युक्ते ऐ एम् एन् इन्स्ट्रुमेण्ट् आफ़् परमपुरुष सो इण्ट् अण्डर्स्टाण्ड् रैफिल् शूटिङ्ग् एव्रिथिङ्ग् इस् गोयिङ्ग् आन् इटेड् मै मम प्रश्नः तत् स्थाने अपि अहं यन्त्रं करोमि इति वक्तुं शक्यते वा न कथं शक्यते कथं शक्यते अहं यन्त्ररूपेण अहं यन्त्ररूपेण इत्युक्ते तत्र इत्युक्ते तत्र कश्चित् तत्र देशस्य सेवां करोति इत्युक्ते देशस्य रक्षणं करोति अथवा अन्यकोपि मम हानिं करोति समडी इस् देयर् कमिङ्ग् टु किल् मि मम वदं कर्तुम् अन्यकोपि आगच्छति चेत् तदा तदानीं मम रक्षणार्थम् इफ् ऐ टेक् अ रैफिल् देन् दट् इस् अ डिफ्रेण्ट् स्टोरि बट् हियर् इफ़् द पर्सन् इस् यूसिङ्ग् द रैफिल् फार् किल्लिङ्ग् तत्र कुत्र अस्ति परमात्मानः कृते यन्त्रम् तत्र पशुभावः एव अस्ति खलु पशुस्वभावः अस्ति पशुस्वभावः यः पुरुषः मानवः मानवस्य धर्मः कः इति न जानाति सः एव तादृशव्यवहारं करोति वन् हु टेक्स् द गन् एण्ड् शूट् इस् आरिङ्ग् पशुव्यवहारः so, सो सः तु परमात्मनः यन्त्रम् नास्ति तादृशभावः अपि नास्ति मनसि सः तु मानवधर्मः कः इति अपि न जानाति यः मानवधर्मः कः मम अनन्तेषणा वर्तते मम जीवनस्य लक्ष्यं किम् इति जानाति सः एव एतादृशब्रह्मचर्यभावं स्वीकर्तुं शक्नोति शक्नोति अहं ब्रह्मणः यन्त्रमिति ता सः पुरुषः एव वक्तुं शक्नोति न तु अन्यः यः पुरुषः स्वस्मिन् तादृशविचारः अपि नास्ति यस्मिन् केवलं पशुस्वभावः य एव अस्ति सः पशुभ्यः अपि अधम् अधमः अस्ति सः अन्येषां जीवानां हानिं करोति खलु सः परमा परमात्मनः यन्त्रमिति नास्ति अत्र यन्त्रम् that the bhava that you have in your heart, that I am an instrument doing this job for Paramah Purusha. So when you have that kind of a bhava, you will not do harm to anybody. So a person, a person who is suiting others, he doesn't have any, any of that bhava. He is actually worse than an animal. Manushyariv uh, penne virgaha uh, Nita Devam, Tani mm Vadimam, Tani Vadimam, Tani Vadimam. Um, Sarhi, Idaanin tatra kinshita, I think it's okay. So. एक पत्र अस्तु। यद्यपि यद्यपि आत्मा अनुचैतन्यं वा मनश्च द्वे पृथक् सर्ते स्तः तथापि द्वयोः परस् परस्परं सम्बन्धः स्यात् आदौ प्रतीयते यत् अहं मम अस्तित्वम् जानामि इति अनन्तरं यत् अहं मम आस्तित्वस्य निरूपणं करोति तदेव अहं मां कार्यार्थं प्रेरयति मनसः अंशः चित्तम् इति, इति यत् आख्यातं तत् तन्मात्रद्वारा पुस्तकस्य रूपं धरति अतः अहम् पुस्तकं द्रष्टुं शक्नोमि यत् अहम् माम् चैतन्यम् ददाति अथवा यत् अहम् साक्षी अस्ति मम मनसः अस्तित्वस्य अपि च तत्र अहम् अस्मि इति भावप्रद प्रदस्य तदेव प्रदस्य तदेव आत्मा अथवा अनुचैतन्यम् अहम् अस्मि इति अस्तित्वस्य बोधम् यत् अहम् जनयति अपि च आत्मनः अस्तित्वम् प्रामाणीकरोति तत अहं महत्तत्त्वम् वा बुद्धितत्वं इत्युच्यते यत् अहम् कार्यम् करोति अथवा पुस्तकं पश्यति तत तत् अहम् तत्त्वम् अपि च मनसः अंशः यत् अहम् चित्तम् इत्युच्यते तत् पुस्तकस्य रूपम् धृत्वा अहम् तत्त्वम् पुस्तकम् द्रष्टुम् समर्थयति अर्थात् एकमेव अहम् भिन्नेषु स्तरेषु भिन्नम् कार्यम् करोति इदानीम् एकस्यैव अहम् इत्यस्य एतानि भिन्नानि कार्याणि कथं सम्भवन्ति इति इतोपि विवरणीयम् अहमस्मि इति वाक्यं अहम् इति साक्षिसत्तायाः अस्तित्वस्य स्था, स्थापिता भवति वाक्यम् अहमिति साक्षिसत्तायाः अस्तित्वस्य सानिध्यं पूर्वं कल्पयति यम् साक्षिसत्ता आत्मा अथवा अनुचैत अनुचैतन्यम् अस्ति तस्य च आत्मनः उपस्थितिः च एकस्य प्रत्येकम् कर्मणा प्रदर्शयमाणेन अस्तित्वभावेन स्थापिता भवति परन्तु आत्मन अपेक्षया अहम अस्ज्ञा भिन्ना अस्श्य यमन अथवा अचैतन्य उपस्थित अपेक्षे अपेक्षते उपस्थित उपस्थित अपेक्ष से इं भावना य केवलं एव。विना विना न न चैतन्यस्य भावना साक्षी किम् अतः चैतन्यम् अत्यावश्यकम् महत्तत्त्वस्य बुद्धितत्वस्य वा भावम् निर्मातुम् स्पष्टीकरणीयं स्पष्टीकरणीयम् चेत् आत्मनः अणुचैतन्यस्य वा उपस्थितिं विना महत्तत्त्वस्य अथवा बुद्धितत्वस्य अस्तित्वं न भवितुम् अर्हति सो तत्र पूर्वं वयं दृष्टवन्तः एकं पुस्तकम् द्रष्टव्यम् चेत् तत्र यदा चित्रम् तत् रूपं धरति पुस्तकस्य रूपं धरति अनन्तरं चक्षुना चक्षु चक्षुणा चक्षुणा दृष्ट्वा गृहीत्वा किञ्चित् उपरि गच्छतु महोदय उपरि एव अस्ति तत्र चक्षुना तत् गृहीत्वा चित्रं गृहीत्वा किन्तु चित्त चित्तमेव तस् तत् तत् पुस्तकस्य रूपं गृहीत्वा एव पुस्तकम् इति ज्ञातुम् एतत् पुस्तकम् इति ज्ञातुं शक्नुमः तस्य एकं साक्षीभावः अस्ति तत्र अहं तत्त्वं यदा महत्तत्त्वं तत्र कार्यं न करोति तत् न करोति चेत् एतत् पुस्तकम् इति अपि वयं न ज्ञातुं शक्नुमः तस्य सो तो तत्र सो तत् द्वयमपि पृथक् अस्ति आत्मा पृथक् अस्ति अनुचैतन्यं पृथक् अस्ति चेदपि विना तत न ज्ञातुं शक्नुमः सो अत्र साक्षी सो तत् चैतन्यम् एव दत् अहमस्ति दत् महत्तत्त्वम् अहं यत् अस्ति तदेव मां चैतन्यं ददाति नो चेत् अहं साक्षी अस्ति इति अहम् अस्मि तत्र साक्षी अहम् अस्मि इति तद् सर्वं तदेव आत्मा भवति अथवा अनु येन कारणेन ज्ञातुं शक्नुमः तदेव आत्मा अस्ति न नो चेत् अनुचैतन्यम् तत्र अहमस्मि इति विषयं यत्र तत्र अस्तित्वस्य अहमस्मि इति अस्तित्व अस्तित्वम् अस्ति तत्र बोधनम् अपि यत् तत्र यत्र यत् अहं अहं मनसि यत् अहम् अस्मि इति तत् का आगच्छति तत्र अहं किम् इत्युक्ते तदपि महतत्वमेव महत्त्वं विना अहमस्मि इति अपि अहं न ज्ञातुं शक्नुमः सो तत् अस्तित्वमपि प्रमाणं करोति महत्त्वम् एव वा तत्र बुद्धितत्त्वम् सो यत् कार्यं करोति अथवा पुस्तकं पश्यति तत् किमपि अहं तत्त्वमस्ति किल तत तद् अपि महत्तत्व महत्तत्वेन एव तत् कार्यं भवति पुस्तकं द्रष्टुं शक्नुमः मन अपि च मनसः अंशः अस्ति अहम् इति चित्तं तत् पुस्तकं पुस्तकस्य रूपं किं द्रष्टुं कारयति समर्थं द्रष्टुं समर्थं यत् ददाति तदपि महत्तत्त्वम् एव सो सो अत्र एकमेव अहं तत्त्वं भिन्नभिन्नस्तरेषु भिन्नभिन्नकार्यं करोति सो so, एकत्र तत् अहमस्मि इति ज्ञानं बोधय जनयति अन्यत्र एतत् पुस्तकम् इति ज्ञानं बुद्धि जनयति अत्र कथम् एतानि भिन्नानि कार्याणि सम्भवन्ति इति अपि किञ्चित् विवरणं दत्तमस्ति तत्र एकम् अस्ति अहमस्मि अत्र साक्षीभाव साक्षिभावम् अस्ति तत्र अस्तित्वस्य साक्षिभावमस्ति तत्र साक्षिसत्तया भवति अहम् अस्मि इति वाक्यस्य ज्ञानं सो तत्र साक्षिसत्ता आत्मा अनुचैतन्यम् अस्ति तत्र <totra>, uh, आत्मनः उपस्थितः प्रत्येककर्मणा प्रदर्श्यमानेन अस्तित्वभावेन स्थापिता भवति तस्य च आत्मन उपस्थितिः च एकस्य प्रत्येकं कर्मणा प्रदर्शयेमा प्रदर्श्यमानेन अस्तित्वभावेन स्थापिता भवति सो तत्र केवलम केवलम् अहमस्मि अस्तित्वभावस्य भावना किम् जनयति आत्मना तदपि तत् आत्म आत्मनः उपस्थितः स्थितिः च तत् वाक्यम् अहं सम्यक् रूपेण वक्तुं समर्था नास्ति अहं Uh, आत्मनः उपस्थितिः च एकस्य प्रत्येकं प्रमाणं प्रदर्शयमाणेन अस्तित्वभावेन स्थापिता भवति प्रायः अहं uh, सो uh, वि um, तत्र पृथक् uh, uh, अहमस्मि इति एकं uh, uh, ज्ञानं भवति किल अहमस्मि इति तत् uh, भावस्य तत् uh, अस्तित्वभावस्य कारणम् अपि अन्य अस्ति अहं uh, नास्मि इति सो अहमस्मि इति अग्रे किञ्चित् प्रदर्शयतु भगिनि तत्र धन्यवादः तत्र सो तत्र अनुचैतन्यम् एव अत्र अहमस्मि अत्र तत्र अहं अहमस्मि तद् भवित् अस्ति अस्तित्वभावम् अन्य एकं दत् प्रदर्शयति तत् अस्ति अनुचैतन्यम् तस्य अपेक्षते वयं तत् अस्ति एव चेत् वयं ज्ञातुं शक्नुमः अहम् इति एवमेव वयं निरूपितुं शक्नुमः अनुचैतन्यम् अपि केवलं चैतन्यम् एव इति चैतन्यं विना अस्तित्वमेव न भवितुमर्हति तद् तद् नास्ति चेत् तस्य भावना अपि अहं न ज्ञातुं शक्नुमः सो अत्र अहम् इति अस्तित्वस्य शाक् साक्षीभाव किम् महत् तत्त्वस्य कारणेन एव सो बुद्धितत्व महत्तत्व तस्य कारणेन एव वयं ज्ञातुं शक्नुमः अहम् अस्मि इति सो तत्र लिखितमस्ति स्पष्टीकरणीयं चेत् आत्मनः अनुचैतन्यस्य वा उपस्थितिं विना सो अनुचैतन्यस्य उपस्थितिं विना महत्तत्त्वस्य अथवा बुद्धितत्वस्य अस्तित्वं वा भवितुं न अर्हसि सो तत्र महत् महत्तत्त्वस्य अनुभवम् सो आत्म अनुचैतन्यस्य उपस्थितं न अस्ति चेत् महत्तत्त्वस्य अस्तित्वमपि न भवितुमर्हति सो तद् आवश्यकम् एव किल भगिनि ऐव महत्तत्त्वम् अस्ति चेत् एव आत्मनः उपस्थितम् अनुचैतन्या उपस्थितं किन्तु तत्र लिखितं लिखितं उत आत्मनः अनुचैतन्यस्य उपस्थितं विना महत्तत्त्वं वा बुद्धितत्वम् अस्तित्वम् अपि न भवितुमर्हति तत् किञ्चित् स्पष्टीकरोमि इति अस्ति आत्मा नास्ति चेत् महत्तत्त्वम् अनु महत्तत्त्वं बुद्धि अहम् अह अहं तत्त्वं चित्तम् इति किमपि न भवितुमर्हति इत्युक्ते माता अस्ति यता एका महिला अस्ति सा भिन्नभिन्नकार्याणि सा करोति इत्युक्ते गृहे तस्य स्वस्याः पुत्राणां कृते माता अस्ति अपि च स्वस्य भर्तुः कृते पत्नी अस्ति बहिः यदा सा कार्यं करोति यदा सः सा वैद्या अस्ति बहिः तदानीं सा वैद्या अस्ति तर्हि एका माता भिन्नभिन्न कार्याणि करोति खलु तत्र भिन्नभिन्न डिफ़्रेण्ट् फङ्क्षनल् फ़ार्म्स् रैट् यथा एका एव महिला भिन्नभिन्न कार्याणि करोति तथा एका आत्मा एकः एव आत्मा भिन्नभिन्न भिन्नभिन्न इट् टेक्स् डिफ़्रेण्ट् फङ्क्षनल् फार्म्स् भिन्नभिन्नकार्यं करोति सो द सेम् आत्मा इट् इस् ड्यू टु द इम्पाक्ट् आफ़् द गुणस् विच् विल् बि सीङ्ग् लेटर् प्रकृतेः गुणस्य प्रभावेन आत्मा भिन्नभिन्नकार्यरूपं स्वीकरोति आत्मा एव महत्तत्त्वरूपेण परिवर्तते आत्मा एव अहं तत्त्वेन परिवर्तते आत्मा एव चित्तरूपेण परिवर्तते अतः आत्मनः उपस्थितिं विना किमपि न भवति किमपि कार्यं न भवति इत्युक्ते प्रथमतया अत्र इति चेत् आत्मा अपि च मनः द्वे पृथक् सत्ते स्तः परन्तु तयोः गहनः सम्बन्धः वर्तते वन् केनाट् एक्सिस्ट् वितौट् दि अदर् मनः आत्मा आत्मानं विना न वर्तते परन्तु शरीरे शरीरे मनः आत्मा द्वयोः अपि अपेक्षा वर्तते मैण्ड् केनाट् एक्सिस्ट् वितौट् दि आत्मा बट् दे आर् टु इण्डिपेण्डेण्ट् एण्टिटीस् ऐ प्रथमतया अहम् अस्मि इति यः भावः अस्ति यदा अहम् अस्मि इति भावः अस्ति तदानीमेव अहं तत्त्वं किमपि कर्तुं शक्नोति यदा अहं तत्वं किमपि कर्तुम् इच्छति तदानीं चित्तं तन्मात्रद्वारा बहिः यद्वस्तु अस्ति तस्मात् तन्मात्रं स्वीकृत्य इन्द्रियद्वारा चित्तं पुस्तकस्य आकारं गृह्णाति तदानीम् अहं तत्त्वं पुस्तकं पश्यति कलो। तर्हि प्रथमतया महत्तत्त्वम् मा, अहम् अस्मि इति यः भावः अस्ति तत्र अहम् इति यः अस्ति अहम् अहम् अस्मि इति सः अहं कः इति चेत् सः अहम् एव अत्र जीवात्मा सः अहम् एव परमपुरुषः सः अहम् एव यूनिट् कान्शियस्नेस् इति वयं वक्तुं शक्नुमः सः अहं महत्तत्त्वात् पृथक् वर्तते सः सः आत्मा सः आत्मा एव भिन्नभिन्नस्तरे भिन्नभिन्नरूपं स्वीकरोति जस्ट् लैक् द लेडी टेक्स् डिफ़्रेण्ट् फङ्क्षनल् फ़ार्म्स् लैक् देट् द सेम् आत्मा टेक्स् डिफ़्रेण्ट् फङ्क्षनल् फ़ार्म्स् यदि आत्मा नास्ति तर्हि महत्तत्त्वमपि नास्ति अहं तत्त्वमपि नास्ति मनः एव नास्ति अतः प्रथमतया आत्मा अस्ति यदा आत्मा अस्ति तदानीम् अहम् अस्मि इति भावः अस्ति तदनन्तरम् अहं तत्वं किमपि कर्तुम् इच्छति तदनन्तरं चित्तं तत्र बाह्यवस्तुनः रूपं गृह्णाति तदनन्तरम् अहं तत्त्वं चित्ते तद्रूपं पश्यति अतः एतत् सर्वं कदा भवितुमर्हति यदा आत्मा अस्ति तर्हि आत्मा पृथक्तया यावत्पर्यन्तं नास्ति तद् तावत्पर्यन्तं मनः अपि नास्ति मनः मनसः अस्तित्वमपि नास्ति इति कृत्वा अत्र उक्तमस्ति प्रथमतया आत्मनः उपस्थितिः अपेक्षिता वर्तते आत्मानं विना किमपि न भवि भवितुम् अर्हति विना अहम् अस्मि इति भावः अपि न भवितुम् अर्हति अतः uh, मनसः निर्माणार्थमपि आत्मनः उपस्थितिः अपेक्षिता अस्ति अतः उक्तं महत्तत्वम् आत्मानं विना तस्य उपस्थितिः महत्तत्वस्य उपस्थितिः अपि न भवितुम् अर्हति इति अत्र उक्तम् इदानीं स्पष्टं वा भगिनी आं महोदय किन्तु तत्र लिखितमस्ति न भवितुमर्हति महत्तत्त्वस्य बुद्धितत्वस्य अस्तित्वं न भवितुमर्हति किन्तु महत्तत्त्वं तु एकम् आत्म आधार आधारीकृत्वा न भव भवति किल नीकृत्वा एव भवति आत्मा आधारीकृत्वा एव भवति कथं भवति इति अग्रे वयं पश्यामः सो it is it is due to the impact of the gunas of the prakriti that the atma becomes the mahatattva so when the sattva guna of prakriti impacts the shuddha purusha then the shuddha purusha manifests as mahatattva it's a modified i so atma eva it manifests as mahatattva thati atma nasti cha mahatattvam api nasti अव अवबोध्यते वा तत्र प्रकृतेः प्रभावः कथं भवति इति अग्रे वयं पश्यामः आत्मा एव तत्र तत्र माडिफैड् ऐ महत्तत्त्वम् इस् नथिङ्ग् बट् अ माडिफैड् ऐ आत्मा एव महत्तत्त्वरूपेण उपस्थितं वर्तते अतः एव तत्र लिखितम् अनुचैतन्यस्य उपस्थितिं विना महत्तत्त्वस्य अस्तित्वमपि न भवितुम् अर्हति इट् इस् द सेम् जस्ट् लैक् द लेडी हू टेक्स् डिफ़्रेण्ट् फङ्क्षनल् फार्म्स् Same way, the Atma takes these different functional forms. It takes the functional form of Mahatattva, अहं तत्त्वा चित्ता अतः एव वयं वदामः sarvam khalvidam brahma, ब्रह्म किमर्थं vadamaha, sarvam brahma eva iti mm. hmm? इति किमर्थं yet kimapi asti, अस्ति अस्मिन् जगति सर्वं ब्रह्म एव Everything is a modified form of Paramatma, Paramapurusha. Hmm? मम प्रश्नः प्रायः उक्तमस्ति सो जीवात्मा परमात्मा इति टेक् इट् लैक् देट् सो द परमात्मा और् द महत्त्वं विल् एक्सिस्ट् इवन् विदौट् दि प्रेसेन्स् आफ् दि जीवात्मा बट् द जीवात्मा केनाट् एक्सिस्ट् विदौट् दि प्रेसेन्स् आफ् द परमात्मा इस्ट् नाट् लैक् no the mahattva will not exist without the presence of jivatma there is no Jeeva, there, is, there is no mahattva if jivatma is not there jivatma the jivatma is always there jivatma nitya vastu asti sarvada asti anadi ananta satta jivatma yada prakritihe prabhavah bhavati tadani tatra mahattvasyah uh, a aavirbhavah bhavati तत् कथं भवति इति अग्रे अस्मिन् एव करपत्रे अग्रे दत्तमस्ति वयं पश्यामः तदानीम् इतोपि स्पष्टं भवति परन्तु द महत्तत्व विल् एक्सिस्ट् वितौट् द जीवात्मा इति सत्यं नास्ति जीवात्मा अस्ति चेदेव महत्तत्त्वम् आत्मनः एव परिवर्तितरूपम् अस्ति महत्तत्त्वम् अतः महत्तत्वं विल् एक्सिस्ट् ओन्लि वेन् देर् इस् जीवात्मा द जीवात्मा इस् दि साक्षिसत्ता इट् एक्सिस्ट् इन् आेट् जीवात्मा साक्षिसत्ता सर्वेषु अवस्था सर्वासु अवस्थासु अवस्थासु जीवात्मा तु वर्तते एव अस्तु अत्र अस्य विषये तुपि वक्तव्यं चेत् अग्रे अग्रे वयं वदामः इदानीं समयः बहु अतीतः तर्हि अत्र स्थगनं कुर्मः अग्रिमसप्ताहे प्रायः वर्गः न भवति यतोहि अग्रिमसप्ता सप्ताहात् आरभ्य एकसप्ताहपर्य एकसप्ताहान्तपर्यन्तं अस्माकं वाराणस्यां शिबिरः अस्ति अतः अत्र वर्गः न भवति पुनः यदा वयं वाराणसीतः आगच्छामः तदानीं पुनः सन्देशं प्रेषयामि अस्तु वाराणसीविषये कदा भविष्यति इति प्रेषयतु भगिनी कृपया डिसेम्बर् सिक्स्टीन्त् टु ट्वेण्टि तर्ड् मया पूर्वमपि प्रेषितम् Uh -huh. 16th to 23rd, हं न भवति क्लास् yeah to reach what have the class after that we can we can resume if you guys are available we can I, i'll just stop the recording for a minute okay if you are available